ैकस्वरूपिणे नमः ॐ परमार्थाय नमः ॐ परगतये नमः ॐ प्रभवे नमः ॐ प्राणाय नमः ॐ प्रत्यगभिन्नब्रह्मणे नमः ॐ परसच्युत्सुखात्मकाय नमः ॐ प्रपञ्चनिर्मुक्ताय नमः ॐ पावनाय नमः ॐ परवस्तुने नमः ॐ प्रज्ञाय नमः ॐ परमसुखदाय नमः ॐ पुण्याय नमः ॐ पापविनाशनाय नमः ॐ परमाय पदाय नमः ॐ पुंसे नमः ॐ पुरारये नमः ॐ परमकृपाकराय नमः ॐ पुण्यलभ्याय नमः पुष्कलाय नमः ॐ परमोदाराय नमः ॐ प्रयात्मने नमः ॐ प्राणनायकाय नमः ॐ पुण्यापुण्यस्वरूपाय नमः ॐ पूर्वाय नमः ॐ परमसाम्याय नमः ॐ पूर्वपुण्यैकलभ्याय नमः पारमार्थिकविवर्जिताय नमः ॐ परगाम्भीर्यवते नमः ॐ पूर्वपुण्यहीनसुदुर्लभाय नमः ॐ पुरत्रय साक्षिणे नमः ॐ पुरत्रयरूपाय नमः ॐ परमामृतधाम्ने नमः ॐ परोन्नतिमते नमः ॐ परमसन्तोषाय नमः ॐ परनिर्वाणतृप्तये नमः ॐ प्रातिभाषिकहीनाय नमः ॐ प्रातिभाषिकसाक्षिणे नमः ॐ पुरातेताय नमः ॐ प्राज्ञहीनाय नमः ॐ प्रतिबन्धत्रये हीनाय नमः ॐ पादेन्द्रियसाक्षिणे नमः ॐ पद्मपत्रजलप्रायजगते साक्षिणे नमः ॐ पायवेन्द्रियादिसाक्षिणे नमः ॐ प्राज्ञतैजसोवर्जिताय नमः ॐ नमः ॐ ब्रह्मविद्याय नमः ॐ नमः ॐ बलिने नमः ॐ ब्रह्मविवर्जिताय नमः ॐ ब्रह्मविप्रज्ञाय नमः ॐ ब्रह्मविद्यासम्प्रदायरक्षकाय नमः ॐ बृहत्कोशाय नमः ॐ ब्रह्मणे नमः ॐ ब्रह्मचैतन्याय नमः ॐ बलप्रदाय नमः ॐ ब्रह्मज्ञानैकलभ्याय नमः ॐ बन्दमोक्षविवर्जिताय नमः ॐ ब्रह्मज्ञानतोयाय नमः ॐ ब्रह्माधिपतये नमः ॐ ब्रह्मानन्दाय नमः ॐ ब्रह्मानन्दरम्याय नमः ॐ ब्रह्मात्मकाय नमः ॐ ब्रह्माकारवृत्तिविषयाय नमः ॐ ब्रह्मसंस्थिताय नमः ॐ ब्रह्मज्ञानस्वरूपाय नमः ॐ ब्रह्मविद्रूपाय नमः ॐ ब्रह्मविदे नमः ॐ ब्रह्मरूपाय नमः चक्रप्रवर्तकाय नमः ॐ भाग्यलभ्याय नमः ॐ भागधेयाय नमः ॐ भूमानन्दस्वरूपिणे नमः ॐ भूतपतये नमः ॐ भूम्ने नमः ॐ भवरोगचिकित्सकाय नमः ॐ भावाभावकलाहेनाय नमः ॐ भगवते नमः मोचकाय नमः ॐ भवध्वंसकाय नमः ॐ भारूपाय नमः ॐ भीतिनिवर्तकाय नमः ॐ भोक्तृभोज्यभोगरूपाय नमः ॐ भावनालङ्घिताय नमः ॐ भाववर्जितचिन्मात्राय नमः ॐ भाषाहीनाय नमः ओं भोक्तृभोग्यभोगसाक्षिणे नम ओं भ्रमाविष्टा नम ओं भ्रृष्टीजसदाक्षिणे नम ओंनाय रम्य प्रध्वशिने नम ओं महाकाशा रम्य महते नम ओं महाकर्त नम ओं महाभोक्त्रे नम ओं महात्यागिने नम ॐ रम्य महामुनये नमः ॐ मुक्तामुक्तस्वरूपात्मने नमः ॐ मुक्तामुक्तविवर्जिताय नमः ॐ महात्मने नमः ॐ महादेवाय नमः ॐ महर्षये नमः